चतुःसप्ततितमः सर्गः ताम् तथा गर्हयित्वा तु मातरम् भरतस्तदा रोषेण महता विष्टः पुनरेवाब्रवीद्वचः राज्याद्भ्रंशस्वकैकेयि नृशंसे दुष्टचारिणि परित्यक्तासि धर्मेण मामृतम् रुदती भव किम् नु ते दूषयद्रामो राजा वा भृशधार्मिकः ययोर्मृत्युर्विवासश्च तुल्यमा त्वत्कृते तुल्यमागतौ भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् कैकेयि नरकम् गच्छमा च अयशो जीवलोके चया हम प्रतिमाे मित्रे नृशंसेज्यम्यों दुर्वृत्ते प्रतिघाति कौसल्या चाचान्या मातर दुखे न महता कुलदूषिणी नश्वपते कन्याधर्मराज से धीमता राक्षसी तत्र जातासि कुलप्रध्वंसिनीपितुः यत्त्वया धार्मिको रामो नित्यम् सत्यपरायणः वनम् प्रस्थापितो वीरः गतः यत्प्रधानासि तत्पापम् मयि पित्रा च परित्यक्ते सर्वलोकस्य चाप्रिये कौसल्याम् धर्मसंयुक्ताम् वियुक्ताम् पापनिश्चये कृत्वा कम् प्राप्स्यसे ह्यद्य लोकम् निरयगामिनि किम् नावबुध्यसे क्रूरे नियतम् बन्धुसंश्रयम् ज्येष्ठम् पितृसमम् रामम् कौसल्यायात्मसम्भवम् अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चाभिजायते तस्मात्प्रियतरो मातुः प्रिया एव तु बान्धवाः अन्यदा वहमानौ पुत्रो पुत्रौ विगतचेतसौ तावर्धदिव संश्रान्तौ दृष्ट्वा पुत्रौ महीतले रुरोदपुत्रशोकेन बाष्पर्याकुले क्षणम् अधस्ताद्वदतस्तस्यासुरराज्ञो महात्मनः बिन्दवः पतिता गात्रे सूक्ष्मासुरभिगम्भिनः स्थिताम् आकाशे विष्ठिताम् दीनाम् मृदतीम् भृजदुःखिताम् ताम् दृष्ट्वा शोकसन्तप्ताम् वज्रपाणिर्यशस्विनी इन्द्रः प्राञ्जलिरुद्विघ्नः सुरराजोऽ ब्रवीद्वचः भयम् कच्छिन्न चास्मासु कुतश्चिद्विद्यते महत कुतो निमित्तः शोकस्ते सर्वहितैषिणी एवमुक्ता तु सुरभिः धीमता प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदा शान्तम् पापम् न वः किञ्चित् कुतश्चिदमराधिपा अहम् तुमग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मि प्रतापितौ मध्यमानौ बलीवर्दौ कर्षकेण दुरात्मना मम कायात् हि दुःखितौ भारपीडितौ यो दृष्ट्वा परितप्येहं नास्ति पुत्रसमः प्रियः यस्याः पुत्रसहस्रैस्तु कृत्सम् व्याप्तमिदम् जगत् तान् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् इन्द्रो ह्यश्रुनिपातन्तम् स्वगात्रे पुण्यगन्धिनम् सुरभिम् मन्यते दृष्ट्वा भूयसीन्तामिहेश्वरः समाप्रतिमवृत्ताया लोकधारणकाम्यया का श्रीमत्या गुणमुख्याया स्वभावपरिचेष्टया यस्याः पुत्रसहस्राणि सापि शोचति कामधुक् किम् पुनर्या विना रामम् कौसल्या वर्तयिष्यति एकपुत्रा च साध्वी च तस्मात् त्वम् सततम् दुःखम् प्रेत्य चेह च लप्स्यसे अहम् त्वपचितिम् भ्रातुः वर्धनम् यशसश्चापि करिष्यामि न संशयः आनाय्य च महाबाहुम् कोसलेन्द्रम् महाबलम् स्वयमेव प्रवेक्ष्यामि वनम् मुनिषेवितम् न ह्यहम् पापे पापम् त्वया कृतम् शक्तो धारयितुम् पौरैरश्रुकण्ठैर्निरीक्षितः सा त्वमग्निम् प्रविश वा स्वयम् वा विषदण्डकान् रज्जुम् बद्ध्वा अथवा कण्ठे न हितेऽन्यत्परायणम् अहमप्यवनीम् प्राप्ते रामे सत्यपराक्रमे कृतकृत्यो भविष्यामि विप्रवासितकल्मषः इति नाग इवारण्ये तोमराङ्कुशतोदितः पपातभुवि सङ्क्रुद्धो निःश्वसन्निवपन्नगः संरक्तनेद्र बभूव भूमौ पतितो नृपात्मजः शचीपतेः केतुरिवोत्सवक्षये इत्यार्षे श्रीमद् रामायणे वाल्मीकीये अयोध्याकाण्डे चतुःसप्ततितमः